हरिओं श्रीजगदंबिका नम अथ श्रीमदेवी भागवते महापुराणे प्रथम स्कंधे तृतीय शुण्व संप्रवेश मुनीशर यहाँ तत्व व्यासा सत्यवती सुता मैं भद्व भ्रिय व चतुष्ट अनापरिङ्गतुर्दशसहस्रं च मत्स्यमाद्यं प्रकीर्तितं तथा ग्रहसहस्रं तु मर्कण्डेयम् अद्भुतं चतुर्दश सहस्राणि तथा पञ्चशतानि च भविष्यं परिसङ्ख्यातं मुनिभिः तत्त्वशिभिः अष्टादशसहस्रं वै पुण्यं भागवतं किले तथा चायुतसङ्ख्याकं पुराणम् ब्रह्मसञ्ज्ञकम् द्वादशैव सहस्राणि ब्रह्माण्डं च शताधिकम् तथाष्टादशसहस्रम् ब्रह्मवैवर्तमैव च अयुतं वामनाख्यं च वायव्यं षट् शतानि च चतुर्विंशतिसङ्ख्याकसहस्राणि तु शौनक त्रयोविंशतिसहस्रं वैष्णवम् परमाभृतम् चतुर्विंशतिसहस्रम् वाराहम् परमाद्भुतम् षोडशैव सहस्राणि पुराणम् चाग्निसञ्जितम् पञ्चविंशतिसहस्रम् नारदम् परमम् मतम् पञ्चपञ्चाशत् सहस्रम् पद्माख्यम् विपुलम् मतम् एकादशसहस्राणि लिङ्गाख्यम् चाति विस्तृतम् विस्त। एकोनविंशत्सहस्रम् गारुडम् हरिभाषितम् सप्तदशसहस्रं च पुराणं कुर्म भाषितम् एकाशीतिसहस्राणि स्कन्दाख्यं परमाद्भुतम् पुराणाख्या च संख्या च विस्तरेण मया नोपुराणानि शृण्वन्तु श्रीऋषिसप्तमः शरत्कुमारम् प्रथमं नारसिंहम् ततः नारदीयं शिवं चैव दौर्वासममुत्तमम् कापिलम् मानवम् चैव तथा चौचसनम् स्मृतम् वारुणम् कालिकाख्यम् च स्तम्बम् नन्दिकृतम् शुभम् सौरम् पाराशरप्रोक्तम् आदित्यम् चातिविस्तरम् बाहेश्वरम् भागवतम् वासिष्ठं च सविस्तरम् एतानि उपपुराणानि कथितानि महात्मभिः अष्टादश पुराणानि कृत्वा भारताख्यानमुतुलं चक्रेत तदुपुरोहितम् मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे प्रादुः करोति धर्मार्थिपुराणानि यथाविधि द्वापरे द्वापरे विष्णुव्यासरूपेण सर्वदा वेदमेकं स बहुधा कुरुते हितकाम्यया अल्पायुषोऽल्पबुद्धिश्च विप्रा न्यात्रा कलावथ पुराणसंहिताम् पुण्याम् कुरु ते सौ युगे युगे त्रिशूद्र द्विजबन्धूनाम् नवेद श्रवणम् मतम् तेषामेवैतार्थाय पुराणानि कृतानि च पन्मन्तरे सप्तमेऽत्र शुभे वैव स्वताभिधे अष्टाविंशतिमे प्राप्ते द्वापरे मुनिसत्तमाः व्यास्त सप्तवती सोनुर्गुरुर्मे धर्मवित्तमः एको एकोनत्रिंशत् सम्प्राप्ते द्रवणीर्व्यासो भविष्यति अति तास्तु तथा ता व्यासः सप्तविंशतिरेव च पुराणसंहिता तैस्तु कथयितासु युगे युगे ऋषयौ च ब्रूहि सुभागव्यासः पूर्वयुगोद्भवः वक्तारस्तु पुराणानाम् द्वापरे द्वापरे युगे श्रुत द्वापरे प्रथमे व्यस्ताश्रयं वेदाश्रयं भुवः प्रजापति द्वितीये तु द्वापरे व्यासकार्य कृ तृतीये च उष्णा व्यास चतुर्थे तु बृहस्पति पञ्चमे सविता व्यास षष्ठे मृत्यु तथा परे भगवत् सप्तमे प्राते वसिष्ठमे स्मृतः सारस्वतस्तु नवमे त्रिधा दशमे तथा एकादशेऽथ त्रिवृषो भरद् भरद्वाजस्ततः परम् त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे त्रयारुणी पञ्चदशे षोडशे तु धनञ्जय मेधातिथिः सप्तदशे वृत्ति अष्टादशे तथा अत्रिकोनविंशेऽथै गौतमस्तु ततः परम् उत्तमश्चैकविंशेऽथ हर्यात्मा परिकीर्तितः वेणोवाचश वाचैव वे सोममुख्यायणस्ततः तृणबिन्दु तथा व्यासु भार्गवस्तु ततः परम् ततः शक्ति धातुकर्ण्य कृष्णद्वैपायनस्ततः अष्टाविंशति संख्ययम् कथिताय मया श्रुता कृष्णद्वैपानय नाक्तम् पुराणम् च मया श्रुतं कामदम् मोक्षदम् चैव वेदार्थ परिबृंहितम् सर्वगमरसारामम् अवक्षूणाम् सदाप्रियम् प्रियम् व्यासेन कृत्वातिशुभम् पुराणम् शुकाय पुत्राय महात्मनयत् वैराग्ययुक्ताय च पाठितम् वै विज्ञाय चैववाय श्रुतम् मया तत्र तथा गृहीतम् यथा स वैद्यासमुखान् मुनीन्द्रा पुराणगुह्यं सकलं समेतं गुरो प्रसादात् करुणानि निधय च सूतेन पृष्ठे सकलं जगदय द्वीपाय न तत्र पुराणगुह्यम् अयो जीनेनाद्भुतबुद्धिना वै श्रुतं तत्र महाप्रभावं श्रीमद्भागवताम्बराङ्ग्रि पल फलाय स्वादादर सप्तमय संसारार्णवदुर्विगाह्य सलिलम् सन्तस्तु कामय शुके नानाख्यानरसालयं श्रुतिपुटै प्रेम्णा श्रुरो अद्भुतं तच्छ्रुत्वा विमोच्यते कलिभय एवं विधः कक्षित पापीयानपि वेद स्वाचारहीनाशयो व्याजेनापि शृणोति यपरमिदम् श्रीमत्पुराणोत्तमम् भुक्त्वा भोगकलापमयि मत् विपुलम् देहावसानेचलम् योगी प्राप्य मवाप्नुयाद्भगवती नामाङ्कितम् सुन्दरम् या निर्गुणा हरिहरादिभिरप्यलभ्य विद्या सतां प्रियतमार्थ समाधिगम्य सा तस्य प्रकरोति भावम् यत् संशृणोति सततं तु सति पुराणम् सम्प्राप्य मानुषभवम् सकलाङ्गयुक्तम् पोतम् भवानवयुच्चरणाय गामम् सम्प्राप्य वाचकमहो न शृणोति मूढे पञ्चैतोत्र विधिना सुखदं पुराणम् य प्राप्य युगलं पटुमानुषत्वे रागी श्रुणोति सतदं च परापवादान् सर्वार्थदं सुदसनिधिं विमलं पुराणम् नष्ट कुतो न शृणुते भुवि इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्र्यां संहितायां प्रथमस्कन्धे पुराण वर्णन पूर्व पूर्वकुगीय व्यास वर्णनं नमः तृतीयोऽध्याय श्री जगदम्बिकाया प्रणमस्तु